गरुडपुराणम् आचारकाण्डम् अध्यायम् 61 वन् हरिरुवाच सप्तमोपचयाध्यस्तश्चन्द्रः सर्वत्र शोभनः शुक्लपक्षे द्वितीयस्तु पञ्चमो नवमस्तथा सम्पूज्यमानो लोकैस्तु गुरुवदृश्यदे चन्द्रस्य द्वादशावस्था भवन्ति शृणुता अपि त्रिषु त्रिषु त्रिषु त्रिषु च वृक्षेषु अश्विन्यादिवदाम्यहम् प्रवासस्थम् पुनर्दृष्टम् मृदावस्थम् जयावहम् हास्यावस्थम् नदावस्थम् प्रमोदावस्थमेव विषादावस्तभोगस्ते ज्वरावस्तम् व्यवस्थितम् कम्भावस्तम् सुखावस्थम् द्वादशावस्तगम्भवेद प्रवासोहानिर्मृत्युच यजयो हास्येरदिः सुखम् शोगो भोगो ज्वरकम्भः सुखम् चेदि जन्मस्थ कुरुदे तुष्टिं द्वितीये नास्ति निर्वृधिः तृतीये राजसम्मानं चतुर्थे कलहागमः पञ्चमेन मृगाङ्गेन स्त्रीलाभो वै तथा भवेद धनधान्यगमषष्ठे रदि पूजा च सप्तमे अष्टमे प्राणसन्देहो नवमे कोशसञ्जयः दशमे ध्रुवमेकादशे जयः द्वादशे शशाङ्गेन मृत्युरेव न संशयः कृत्तिकादौ च पूर्वेण सप्तर्क्षाणि च वैभ्रजेत मखादौ दक्षिणे गच्छेदनुराधादिपश्चिमे प्रशस्ता प्रशस्ताचोत्तरयात्रा धनिष्ठा दिशु चित्रा दिषु सश्वीष्ठा सलंक मृगाश्चिरा पुष्या मूला हस्ताशुभा सदा कन्या प्रदानी यात्राया प्रतिष्ठा दिषु कर्मसु शुक्रचन्द्रौ हि जन्मस्थौ शुभदौ च द्वितीयके शशिज्ञशुक्रजीवश्च राशौ चाध तृतीयके भौममन्तशाङ्कार्का बुधश्रेष्ठश्च दुर्थके शुक्रजीवौ पञ्चमे च चन्द्रके मन्तार्कौ च कुजश्रष्टे मन्तार्कौ च कुजषष्ठे गुरुचन्द्रौ च सप्तमे शुक्रा अष्टमे श्रेष्ठौ नवमस्तो गुरुशुभः अर्कार्किचन्द्रादशमे ग्रहा एकादशेऽखिलाः बुधो दद्वादशे चैव भार्गवः सुखदो भवेत् सिंहेन मकरश्रेष्ठकन्ययामेष उत्तमः तुलया सहमीनस्तु कुम्भेन सह कर्कडः धनुषा वृषभश्रेष्ठो मिथुनेन च वृच्छिकः यष्टकम्प्रीत्यै भवत्येव न संशयः इति श्रीगारूडे महापुराणे आचारकाण्डे ज्योतिश्शास्त्रे ग्रहाणाम् शुभाशुभस्थानादिनिरूपणम् नामैकभष्टितमोऽध्यायः ओम् अध्यायम् सिक्स्टि टु हरिरुवाच उदया तु समारभ्यराशौभानुस्थितो व्रजे दखनि ष्भि षड्भिस्त निशी मीनेशे चुतस््रो वृषकुंभ मकरे मिधुने तिस्र, मिथुनेस्र पंचापे चर्के सिंह च वृच्चिकेट चनिया प्रमाणि परीर्ति रसपूर्वसुसागराोदया तवत्ल्नाषा दवा मेषलग्नेवे द्वंद वृषे का मिथुने सुभगा कन्या वेश्या कर्कड़े सिंह चैवापुत्रा चन्यांपयुता तुलायांपर्य वैश्चि कर्कशा भवेद, सौभाग्य सच्च मकरे नीचगा कुंभचैवापुत्र सियान्मी ने वैराग्य संयुता तुला कर्कको मेषो मक राशय चर कार्यारकार पंचानन वृषकुम्भा वृच्छिकस्यु स्थिराणिः कन्याधनुश्चमीनश्च मिधुनम् द्विस्वभावतः द्विस्वभावानि कर्माणि कुर्यादेषु विचक्षणः यात्राचरेण कर्तव्या प्रवेष्टव्यम् स्थिरेण दो देवस्थापनवै वाह्यम् प्रतिपच्चाधषष्टी च नन्दा चैकादशी स्मृता द्वितीया सप्तमी भद्रा द्वादशी वृषभध्वजा जयाष्टमी तृतीया च स्मृता रुद्र चरः गुरुक्षिप्रो मृदु शुक्रो रविर्ध्रुवः शनिश्च दारुणो ज्ञेयो भौम उग्रः शशीसमः चरक्षिप्रैः प्रयातव्यम् प्रवेष्टव्यम् मृदु ध्रुवैः दारुणोऽग्रैश्च योद्धव्यम् क्षत्रियैर्जयकाङ्क्षिभिः नृपाभिषेकोऽग्निकार्यम् सोमवारे प्रशस्यते सोमे तु लेपमानम् च चा कुर्या चैव गृहादिकम् सैनापत्यम् शौर्ययुद्धम् शस्त्राभ्यासकुजे स्मृदः सिद्धिकार्यम् च मन्त्रश्च यात्रा चैव बुधे स्मृदा पठनम् देवपूजा च वस्त्राद्याभरणम् गुरौ कन्यादानम् गजारोह स्यात्समयः स्त्रियाः स्थाप्यम् गृहप्रवेशश्च गजबन्धः शुभः इति श्रीगारूडे महापुराणे आचार्यकाण्डेज्योतिश्शास्त्रे लग्नखडिगाप्रमाणादिनिरूपणम् नाम द्विषष्टितमोऽध्यायः ओम् अध्यायम् सिक्स्टि हरिरुवाच नरत्रिलक्षणं वक्ष्ये सङ्क्षपा जृणुशङ्कर अश्वेदिनौ मृदुतलौ कमलोदरसन्निभौ सुष्ठाङ्गुलिताम्रनखौ सुगुल्फौ शिरयोज्झितौ कूर्मोन्नतौ च चरणौ स्यादाम् नृपवरस्य हि विरूक्ष पाण्डुरनख वक्रौ चैव शिरानदौ सूर्पाकारौ च चरणौ संशुष्कौ विरलाङ्गुली दुःखदारिद्र्यदौ स्यादानात्र विचारणा अल्परोमायुधा श्रेष्ठा रोमैकैकम् कूपके स्याद्भूपानां तु महात्मनां द्वे द्वे रोम्णि पण्डितानां श्रोत्रियाणाम् तथैव रो दरिद्राणां रोगी निर्मांसजानुकः अल्पलिङ्गी च धनवां स्याच्च पुत्रादिवर्जितः स्थूलिङ्गो दरिद्रस्यादु ्येकवृषणी भवेद विषमे स्त्रीचञ्चलो वै नृप स्याद्वृषणे समे प्रलम्बवृषणोल्पायुर्निर्द्रव्यकुमणिर्भवेद पाण्डुरैर्मलिनैश्चैव मणिभिश्च सुखी नरः निःस्वासशब्दमूत्रास्युर्नृपा निःशब्दधारया ोगाढ्याः समजठरा निःस्वास्युर्खणसन्निभाः सर्पोदरादरिद्रा स्युः रेखाभिश्चायुरुच्यते ललाडे यस्य दृश्यन्ते तिस्त्रो रेखाः समाहिताः सुखीपुत्रसमयुक्तः स षष्ठीं जीवदे नरः चत्वारिंशच्च वर्षाणि द्विरेखा दर्शनान्नरः विशत्याब्दम् त्वेकरेखा आकर्णान्ता चत्वारिंशच्च वर्षाणि हीनरेखस्तु जीवति भिन्नाभिश्चैव रेखाभिरपमृत्युर्नरस्य हि त्रिशूलम् पट्टिशम् वापि ललाडेयस्य दृश्यते धनपुत्रसमयोक्तः स जीवे शरदशतम् तर्जन्या मध्यमाङ्गुल्या आयुरेखादुमध्यतः सम्प्राप्ताय भवेद् रुद्रः स जीवे शरदशदम् प्रथमा ज्ञानरेखा दुह्यङ्गुष्ठादनुवर्तते मध्यमा मूलकारेखा आयुरेखा अतः परम् कनिष्ठिकाम् समाश्रित्य आयुरेखा समाविशेद अच्छिन्ना वा विभक्ता स जीवे चरदशतम् यस्य पाणितलिरेखा आयुस्तस्य प्रकाशयेद शतवर्षाणि जीवेच्च भोगी रुद्रणसंशयः कनिष्ठिकाम् समाश्रित्य मध्यमाया मुभागदा कुर्यादायुरेखादु मानवम् इति श्री गारूडे महापुराणे आचारकाण्डे ज्योतिश्शास्त्रे सामुद्रिके सर्व सर्वलक्षणनिरूपणम् नाम त्रिषष्टितमोऽध्यायः ओम्